सङ्कटनाशन् गणेशस्तोत्रम् प्रणम्य शिरसादेवं गौरीपुत्रं विनायकम् भक्तावासं स्मरे नित्यम् आयुःकामा च सिद्धये प्रथमं व्रप्रतुण्डं च एकदन्तं द्वितीयकं तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं लम्बोदरं पञ्चमं च षष्ठं विकटमेव च सप्तमं विघ्नराजेन्द्रम् वर्णं तथा नोमं नवमं च दशमं तु विनायकं एकादशं गणपतिं द्वादशं तु गजाननं द्वादशैतानि नामानि विसन्ध्यं य पठेन्नरा न च विघ्नभयं तस्य सर्वसिद्धीकरं प्रभो विद्यार्थी लभते विद्यां धनार्थी लभते धनम् पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिं जपेद्गणपतिस्तोत्रम् षड्भिर्मासे फलं लभे संवत्सरेण सिद्धिं च लभते नात्र संशय अष्टभ्यां ब्राह्मणेभ्यश्च लिखित्वाय समर्पये तस्य विद्या भवेत् सर्वान् गणेशस्य प्रसादत गणेशस्य प्रसादतः <Mal々aka>